अतिमात्रम अतिमात्रमावर्धन् तनोलिरामस्पृशन् भ्रुगुम् पराभवन् ये बृहत्सा मानमान्य स्तो ये ब्राह्मणम् प्रत्यष्टे अन्येवास्मिन् शृङ्गमे हास्नस्ते मध्ये तुल्याया केयान् खादम् तासते ब्रह्मकवि वच्यमानाय वत्साभिषङ्गहे ते दो राष्ट्रश्च निर्घम् निरमीरो देव क्रोरमस्या शसनम् दृष्टम् पे शियुगमस्यते क्षीरम् यदस्या दृढीरम् <Sus> उग्रो राजा मन्यमानो ब्राह्मणयोगल् सनि पातक्षिच्यते राष्ट्रम् ब्राह्मणो यत्र जीयते अष्टावीजतु रक्षीयत श्रोत्रा चतुर्हो द्या स्याद्भिष्ट्रमवधूते ब्रह्म यस्य तद्वे राष्ट्रमाश्रमम् भिन्नामेव ्रह्माणम् यत्र हिंसन्ति तत्राष्ट्रम् हन्ति दुक्षुरा तम् रक्षा उपासे दन्ति खाया नो ब्राह्मणस्य तद्धनमभिरामेतदेव गृतम् राजावरुणो रीद न ब्राह्मणस्य राष्ट्रे जागरश्च नैव रामेव संभव्यम्भवन् या मृदायानुबन्धन् दे गोत्र तद्वै ब्रह्मजे देवास्त्रवन् आरोहणीरपवाणस्य यानि जेतस्य वा मृदो तं वै ब्रह्मजले देवा वा मागमाधारयन् ोणे नोन्दतेयन् न वर्षम् मेत्रावरुणम् भजमभिवर्षते नास्मि समीरे कल्पतेन मित्रम् उच्चैर्भोभिः सत्त्व नायम् वा नस्पत्यः संहृतमुश्रियाभिः जम् शृणुवानो रमयन् सिंहैवेष्यन्नभि सिंहैवसितामेव वृषा त्वम् मद्रायस्ते समद्रामादिषे सहसाभिधानो गव्यभिरोपदम् ददाति शुचारिद्धृदायम् मरे राम् भित्वा प्रचोदायम् सञ्जयन् मृदया ऊर्ध्वैर्यम् वाचम् गोरस्ववेदा शत्रो रामवारस्ववेदाुहे वाचम् वृदताम् वरन् देवारम् मदीनाथिता घोरबुद्धा ीली पूर्वे अमित्रे रामाभिजञ्जयन्धु अन्तरे मे नोदस्ते शैवम् अविक्रन्दस्तयोपादस्तो कलम् मृत्रौर्याय सन्धी देविक्रम प्रवादादिवाचारोधारी इन्द्रवेदी सत्त्व विद्वायस्तमित्रैरवित्रायङ्घरीः सङ्गन्धप्रवलो ङ्गो भयिनाय श्रे सङ्ग्राम यत् संशीतो अंशोली वद्रावादिवर्णे अत्र सह मानबुद्धिरे मन्द्रम् भवत्यादेशमुद्वालेः अच्युतच्युत्समो गमिष्ठतो विद्योदोद्यम् विहृदयम् नैव नस्यम् मदामित्रे सुन्दुभे विद्वेषम् कस्मरणम्भयममित्रे श्रीरध्वश्चैः रान्दुन्दुभेदैः उद्वेपमानामरथा चक्षुरागे धावन्भ्य गोमित्राः राशे राज्ये हृदे वानस्पत्यः संहृदौ श्रियाभिश्वः तत्रा सममित्रेभ्यो राज्ये राजिगाभ्यः यथा मृगार्थं विजेन्द्रया देवात्वन्वन्द्वैनित्रा न विक्रन्द व्रत्रासयादो निहया यथा मृगा गजाला नन्दिहोर्घे देवा त्वन्दवै निक्रन्दवृत्रा स यादो निहया यथा यथा एवा त्वन्दुन्दु मित्राणि क्रन्दप्रादयाधो चित्ता परामित्रायश्च सर्वे देवा चित्रसङ्गे सङ्गस्यैरिन्द्र दे। प्रक्रीडोष्ठाय स तैरमित्राः सन्तीकः सन्तुजादिशाः श्रेमात्परामित्रा आदित्य चक्षुरसत्सवी चीरासविकाशय बाहुवीर्ये ृष्टिवाद इन्द्रेण सोमो राजा वरुणो राजा महादेव भूत सविधः शोशोचानाभद्वैतां स भुजा भवन्तो अयैव विश्वाम् धरीराम् गृणोऽ कदा हि तक्मन्दर्याम् गतराङ्गुडयोम् सदैव तत्मानम् विश्वधामि ीतोमि नमः शकम्भरस्य मृष्टिः पुनरेतु महावृष भो गो अस्य मोजवन्त गोकोऽस्य महावृषाः यावज्जालस्तग्मंस्तावा नो जनः तग्मञ्जालविजातव्यम् गौरी यावीम् निष्टग्मिच्छताम् वल्ले न ो जलो रक्षबल्लीस्तः श्रोत्राणि च प्रव्या तत्पन्वीमधोनि महारषान् नो जलोकं सद्धि परेत्य प्रैतानि तत्पले नो अन्यक्षेत्राणि वा अभूदुप्रार्थस्तग्मानगमिष्यति बल्लीताय त्वम् शीतोऽसो रूढः सह कासारेभयः देवास्त्रे दग्मन् हेदयस्ताभिस्मैरन्धिनः मास्मेतान्सखीम् कुरुतः बलासम् काशमद्युलम् बास्मादोर्वाणे पुनस्तल् लक्ष्मन् नब्रुवे से पाम्ना भ्रातुर्येण सह कामारञ्जनम् कृतेजकम् वितृतेजम् स दन्दिमुदारदम् तत्मानम् शीतम् रोरम् गैष्मम् नारितम् गन्धादिभ्यो मौजमभ्योभ्यो मगधेभ्यः पैषञ्जना विवशे वधिम् धक्मानम् परि दद्मरे ओ रेन्द्यारस्वती ओरो महिन्द्रश्चाग्निश्चम्भयधामिजे हस्येन्द्र कुमारश्च कृमिन्धे हर विश्वारा दश मुग्रे न च सामा यो अस्यो परिसर्पाति ज्योनाथे परिसर्पाति कृताम् गच्छमिम् जम्भयामसि स्वरो भौतौ विरो भौतौ कृष्णौन्दोरोहितौ द्वौ बभ्रश्च बभ्रुकारश्चे हताः ये किमय श्रीति कक्षाले कृष्णा श्रीदिवाह एश्वरो वास्ताम् किमिम् जम्भयामसि यदि विश्वदृष्टो दृष्टा दृष्टां शग्नम् न दृष्टाम् च सर्वाम् च प्रवृढम् गमेर एवाक्रश्च पवितृका दृष्टश्च हन्यताम् गमेरुता दृष्टश्च हन्यनाम् हतो हतो न निमोद खल्वान् सारङ्गूनम् श्रृणाम्यस्य पृष्टेरवेरश्चाभिगच्छ्याः अत्रिवद्वमयोहन्विगन्वरवज्रावलग्निवद अगस्त्यस्य ब्रह्मणा सम्पेरस्म्यहम् क्रमेण हतो राजा क्रिमेणामुदैस्थावर्हरः हतो हत माता क्रमे भ्राता हत स्वधा हतातो हता सप्वेशः हतो सर्वे ते क्रमजो हताः सर्वेषाञ्चक्रिमीणाम् सर्वासाम् चक्रिणीणाम् भव्यश्मनाशिरोदाम् यज्ञामुखम् सविता प्रसवानामधिपतिः समावतो अस्मिन् ब्रह्मण्यस्मिन् ब्रह्मण्यस्याम् वोरोधायामस्याम् वृष्ठायामस्याञ्चित्यामस्यामागोत्यामस्यामाशिष्टस्याम् देवोद्याम् स्वाहा अग्निवनस्पते रामधेमयः समाहवतो अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्याम् पूगामस्याम् प्रातिष्ठाया वस्याञ्चित्या वस्यामागोक्त्यामाशिष्यस्याम् देहोक्त्याम् स्वाहा द्यावधेया त्रीणावधिपत्नीते मावता अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्याम् पुरोधाया मस्याम् प्रातिष्ठायामस्याम् चित्या मस्यामागोत्यामस्यामादिष्यस्याम् देवोत्याम् स्वाहा परोणो वामदेवजः समाहावतो अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्याम् पौरोधायास्याम् प्रतिष्ठाया पस्याञ्चित्या वस्यामा गोत्यामस्यामाशिष्यस्या देवभूत्याम् स्वाहा विद्रावोणो वृष्ट्याधिपते रोता अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्याम् पौरोधायामस्याम् प्राधिष्ठायामस्याम् चित्या वस्यामाकोच्चवस्यामादिष्टस्याम् देवहूत्याम् स्वाहा मरुतः पर्वतानामधीपे अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्याम् पुरोधायास्याम् राजेष्ठाया वस्याञ्चित्या वस्यामागोप्यामस्यामाशिष्यस्या वैगोत्याम् स्वाहा सोमो वेरुधावधे वचः समावतु अस्मिन् ब्रह्मण्यस्मिन् ब्रह्मण्यस्याम् पोरोधायामस्याम् प्रातिष्ठायामस्याम् जत्यामस्यामागोत्यामस्यामादिष्टस्याम् धेनोत्याम् स्वाहा बाहुरन्तरिक्षस्याधे वयः समावदो अस्मिन् ब्रह्मण्यस्मिन् ब्रह्मण्यस्याम् पौरोधायास्याम् प्रातिष्ठाया वस्याञ्चित्त्या पस्या गोत्या पस्यामाशिष्टस्याम् देवभूत्याम् स्मा यश्चक्षोषामधेपतिः समावतो स्याम् वोरोधायाः वस्याम् वस्याञ्चित्याः वस्यामा गोत्यामस्यामाशिष्टस्याम् वस्याम देवभूत्याम् स्वाहा चन्द्रमा नक्षत्राणामधिपयः समावदो अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्याम् कौरोधायास्याम् प्रातिष्ठाया पस्याञ्चित्या वस्यामागूत्या वस्यामाशिष्टस्याम् देवोद्याम् स्वाहा बिन्दो दिवधेपजः समाहवत् अस्मिन् कर्मण्यस्मिन् कर्मण्यस्याम् कोरोधायाः पश्याम् प्राजष्ठायाः पश्यामञ्चत्याः पश्यामा गोहत्यामस्यामाशिष्टस्याम् देयोत्याम् स्वाहा मरुताम् विगावो नामधेपदेः समाहावद अस्मिन् ब्रह्मण्यस्मिन् ब्रह्मण्यस्याम् पूर्वया तस्याम् प्राजिष्टाया मस्याञ्छित्याः पस्यामागोत्यामस्यामादिष्टस्याम् देवोत्याम् स्वाहा भृत्यः प्रजानामधेपतिः समाहावदो अस्मिन् ब्रह्मण्यस्मिन् ब्रह्मण्यस्याम् पुरोधायाः मस्याम् चित्याः पस्यामागोत्या पश्यामाशिष्टस्याम् देवभूत्याम् स्वाहापदि अस्मिन् ब्रह्मण्यस्मिन् ब्रह्मण्यस्याम् बोरोधायामस्याम् चिज्जाः वस्यामागोत्यामस्यामाशिष्टस्याम् देवूत्याम् स्वाहा प्रियाः परे दे माहाव अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्याम् गौरोरायामस्याम् प्रतिष्ठाया पस्याञ्चिता पश्यामाकोच्च पश्यामाशिष्यस्याम् देवोत्याम् स्वाहा कदा वरे अस्मिन् ब्रह्मण्यस्मिन् ब्रह्मण्यस्याम् पुरोधायामस्याम् प्रातिष्ठायामस्याम् दिव्यामस्यामागोत्यामस्यामायिष्यस्याम् देवोद्याम् स्वाहा ततस्त मास्ते मा व अस्मिन् ब्रह्मण्यस्मिन् ब्रह्मण्यस्याम्बोरोधायामस्याम् व्रजष्ठायामस्याञ्चित्या वस्यामागोत्यामस्यामाशिष्यस्याम् देवोत्याम् स्वाहा पर्वताद्दिवो यो ने रङ्गा रङ्गात् समाभृतम् शयो गर्भस्थे दोधासरो वर्णमिवादध यथेयम् पृथिवी दोतायाम् गर्भा धाविन्दस्म दे गर्भं देहि श्रीवाय गर्भम् देहिस्वरे गर्भं दे अश्विनो भारुष्टोणो दे गर्भम् देवोस्वती गर्भम् दयिन्द्रश्चाग्निश्च दे गर्भम् धाता जय धातुरे विष्णुयोनिम् कल्पय दुत्तष्टा रूपाणि पिशतु आसीन् चतु प्रजावा गर्भम् ददाजुने गर्वे रजावरुणो यता देवीस्मै यदिन्द्रोत्रगर्भरा गर्भास्मदीया श्वस्य भूतस्य गोग्ने गर्भवेह हरिस्कन्दयस्वगर्भादेश्याम् प्रजायित्वा यावे गर्भस्तेयो निवास अनुष्टे देवाः पुत्रम् स्वामपरो भयाविनम् प्रातश्रेष्ठे रूपेण स्यानाय गीण्या उमां सम्पुत्र माले विलश मे मारिदौतरेणा स्यालया गवीण्या उमां संपुत्र माले विलश मे उमांसम्पुत्र माधेः रजवे मासोदरे प्रजापते श्रेष्ठस्य नार्या रवेन्द्रो उमांसम्पुत्र माधेः रजवे मातु यजो यज्ञे समिधस्त्वाग्निप्रवान् यो निरक्तो यलक्तो देवः सविधा प्रजानन्नस्मिन् यज्ञे महिषस्वाहा इन्द्रमुक्ता मदान्यस्मिन् यज्ञे विद्वान्यो रक्तस्वाहा यज्ञे विदस्वाहा शिष्टाः पत्नी सर्वदेहयुक्ता छन्दान्द्रियज्ञेण ऋतस्वाहादेव बुद्धम् वीवदेहयुक्ता येन प्रोचयज्ञन्दम् वानादे यस्वाहा विष्णुर्नक्तु बुधानवान् षटस्मिन् यज्ञे श्रीलस्वस्थाय लक्तु बहुधा अस्मिन् यज्ञे श्रीढस्वाहा भगवो यु लत्वाधिरोन्वा आस्मास्मिन् यज्ञे प्रवित्रान्तु श्रीरस्वाहा सोमो यत्त्व बहुधापया त्वबुधा वीर्यान्यस्मिन् यज्ञे ऋस्वाः अस्मिन् ब्रह्मणाया तर्वाञ्च वषकारेण यज्ञम् अर्धयन्त बृहस्पदे ब्रह्मणाय यर्वाञ्जज्ञो अयम् सारिजम् यजमानाय स्वाहा ऊर्ध्वास्य समिधो भवन्त्योर्ध्वा शुक्रा चोजेयम् शल्ये भूली मधुब्हा चले प्रयाद सभी विश्वास अक्षा घटा अग्निश्रुजा द्वयेषु भयक्षुदयखलसे मन्दासु भयक्षुमश्चादिष्टादश्च द्वारो देवी रङ्गस्य विश्वे वृद रक्षन्ति विश्वः पूर्वयधाग्ने पद्यमाने आदुष्वयन्ति माता मधन्नः दैवाहोदारं सन्ता सरस्वती भारतीर्णा तन्नस्तु नीमद्धूतम् पुरुषो देव त्वष्टाय स्पोशम् मिश्रणा भीमस्य परस्पदेव सजानादेव स्पर्दयतु अग्ने स्वाहातवेदः इन्दायज्ञम् विश्वे देवानिरञ्जून्ता नव प्राणान् नवभिस्सम्मे दीर्घायित्वाय शतशारदाय हैदेय त्रीण्ययत्रीणि पदाभिष्ठिरायि अग्निः सूर्यश्चन्द्रमा भूमिरा भोद्यौरन्तरिक्षम् प्रतिशोधिनश्च आर्द्रिस्संविधानावृताः पारयन्तो प्रयक्तोन्तामनक्तु पूषाभयसाधृतेन अन्नश्च भूमा पुरुषस्य भूमा भूमा पशूनाम् दरिह श्रयन्ता इममाहारित्यावसो नाथ मोक्षदेहमग्ने वर्धयवान् ना ओमिष्ट्वा पातु भैरेन विश्वभयग्निः भोषा वीरुद्धृष्टे अद्योनम् संविधानम् दक्षम् दधातु सुमनस्य वाहनम् त्रेधा जातम् जन्मनेदम् हिरण्यमग्नेरेकम् प्रियरामम् मभोवतो वस्येकम् हिंसितश्च पराः अपामेकम् मेदताम् मेदया हस्तत्रे हिरण्यम् दायुशे। रुदस्वायुषे रायषण्यमलग्ने कश्यपस्य त्र्यायुषम् त्रयधातस्य चक्षरम् त्रीण्यायोकरम् त्रयस्वर्णास्त्रिमुदायाक्षरमधि सम्भूय शक्ताः प्रत्योऽहम् मृत्युमृदय सागमम् तर्दथा नागमितानि त्वा पातु हरिदम् मध्यात्वा पा त्वजोरम् भूम्यायस्मयम् पादौ प्रागादेव पुरायम् इमास्ति स्तो देव पुरास्तास्त्वा रक्षन्तु सर्वदा तास्त्वम्भः पुरम् देवानाः मृतम् ह्यण्डम् प्रसवो जे तृणाम् यनो मन्यन्ताम् त्रिभुतावधे मे आत्त्वापूषा बृहस्पतिः आज्यातस्य जयन्नामते नत्वादितभिजुषे मच्चेत्वा संवत्सरस्य जय जयसादेन संहृण्वे घृतादुल्लक्तम् मधूनः समक्रम् भौमि द्रुम्भवच्योतम् वारयिष्णो य पुरस्तादोऽ त्वया गामश्वम् पुरुषम् दनेम तथा लग्ने गणो विश्वे भिल्ले स्य परि निष्पदासो अस्य परि निष्पदातवेदः विश्वे हृदये सहसंभ्यो निरुद्धिद्वामृजम् निष्कृतो व्रेणीः विधातो अस्य यमो दृढाग्ने तम् श्रेणीः यृतम्ताल शरी सैरयाम आम सपक् सबले चोलेत्म चांद श्रीरे महामन्त्रे तमोजम् महाकृष्टवच्ये वशल धान्ये तदात्मना प्रजयापिशाचा विहारन्दाभगदोयमस्तु माताम् भक्तव्याद्या सूनाय ने सजानम् तदात्मना प्रजयापिजाचार्यालन्दामगतोऽयमस्तु क्रव्यामस्तु क्रव्याग्नेधिरम् मनोहनम् जहिजातवेदः कविन्दो वाजीण हन्त अस्य धृष्णुः कनाटग्रे दयानुनान् लक्ष्ना रक्षां द्युः सोदः क्रम्या नो मात्या वृक्षैन्या समाहार जातवे न धृतयत् परमावृतम् गात्राण्यस्य वर्धनप्यायदा वयम् सोमस्यैव जातवें सुराप्यायदा वयम् अग्ने व्या एतास्ते अग्नेशाचनम् भरीः तास्तूढस्परागृहारः ताश्चाधि अग्ने प्रती गृह्णाः जहादुः कल्याद्रोम्यो हस्य माम् सन्निहे आवतस्त आवदत्तरावतस्त आवताः धामि ते दृढम् यद्वान्मोदन प्रमोदने उभे वाजा वजामि ते यद्रद्रोहे विहे स्थिरेंशे हरि किल उन्मोदन प्रमोदने उभे वाजा वजामि ते यदेन सोमादके उन्मोचन उन्मोचनप्रमोचने मुवेचाव यत्ते माता यत्ते पिताविर्भ प्रत्यक्षे व्यम् करोमि पुरुष सर्वेण द्रुतौ यमश्च नानुगराधिजीव पुराणैः अनुहो न पुनरेः विद्वासम्बरः मारिष्यति निरवोचमहे यक्ष्मङ्गेभ्योरङ्गद्वरं दव अङ्गभेदोऽक्ष्मस्य नेभ प्रापत्त राजा सारप्तस्तव स्वप्नायश्चेमिः रौदे प्राणस्य गोप्ता रौदिवारकञ्च जाभृता अयाष्टिरो वदूर्य तुदे मृत्यगम् धीरा तृष्णा चित्तमानस्परि नमः यमाय नमोहास्तु मृत्यमेनापितृभ्य उदरेणस्य यो वेदग्निम् स्म इष्टदा ऐदु प्राम् शरीरस्य संवेदाम् तत्पद्याम्बे तिष्ठतु वेत्तामृतस्य मानुगान् मानुविग्रहो भवत् माले प्राणोपोह बाणो बीधारिते ो यस्माधीपदर्मृत्योर्जायच्छतु रश्मिः जिग् भद्रा निष्मला तया शकुरामेकु विश्वे वाचिराय चतुः पुनः प्रदेहाभिला चक्रे कलाकादेवायां को नेरिणे हव्यां दे गतिरायन् चक्रः पुनः प्रदेहाभिलाम् विधान्दे चक्रुलेखा न शो नामो भयादमे गद्गे गत्याञ्चक्रः पुनः प्रदेहरा विलाम् ग्रान्ते चक्रमूलायाम् बलहगङ्गाराच्याम् श्री रेत्या पुनः प्रदेहराविदाम् याञक्रमध्येवोर्वाग्न उदशिराः शालायाम् गत्याः पुनः प्रदेहराविलाम् याम् दे चक्रवायां चक्रेवारे अक्षरो गत्याः पुनः प्रदेहरामिराम् याङ्गे चक्रेनायां याञ्जक्रष्ट्रे दुन्दुहो गत्याः पुनः प्रदेहरामिराम् याङ्गे गत्यान् कूपेष्मझाव चक्रः शब्दानि गत्याः पुनः प्रदेहराविदा यथान्द्रे चक्रः पूरुषास्थे अग्नौ सङ्करया रोगन्निर्ग्राहम् गव्याकम् पुनः प्रदेहराविधा अपाथेनाय ता भारेनाम् ताम् वथेतप्रहृन्महे अधीलोर्याधीरे दः सङ्गभारादित्या यश्चकारम् अङ्गुलिम् चकार भद्रमस्मभ्यमगो कृत्याम् शमधेयम् इन्द्रस्तम्बन्धावधेलाग्निर्विद्य त्वस्त ओम। इति पञ्चमङ्काण्डम् समाप्तम् ओम। अधषष्टम् काण्डम् दोषो ग्राय बृहद्ग्राय सवितारं आधर्मम् सवितारम् तोष्टिभि अन्तः सिन्धोः सोनः सत्यस्य जुवाहारमन्जंसेवम् सो देवः सवितायभू मे सु य सोमृत्यज सुनोता सोलो ने आयम् विशन्तेन्द्रयो रक्षस्विने सुनोता सोमवामिन्द्राय मध्ये युवाजे देशाय समोतः इन्द्रादेशो मरुदाः अवात् सिन्धव सत्त्वभिष्टादुग्रुः पातु न देवी दुषा देवाग्निः शिवा एकस्य पायवाः शुभस्तोतरे गुरुश्च अपान्नपादवे हृदये यश्चिद्देव त्वस्तर्वर्धय सर्वदा तरे त्वस्ता वेदैर्यः पर्यम् नो ब्रह्म नस्पतिः पुत्रैर्धात्रिभरे रोन्तु मरुदास्य द्वेष्याण्युक्षुनाया उदे नयाङ्गे घृते नुरा समेलम् वच्च राजस्तोषेन संसेन यस्य गृह्माविर्गृहेण अग्ने मद्वया त्वाम् तस्मै समाहिद्रवम् च ब्रह्म नस्पतिः योऽस्माम् ब्रह्मणस्पतेरोमन्य यो नः सोमृष्टं स आये वज्रे नास्य मुहे हिलपायो नः सोमभिेष्ठ्याः अपहरस्य वयम् निरमहीमध्योर्व येन सोमालीय स्वथा मित्रायन्त्य ग्रुहाः ये येन सोमसा हन्त्यासूरान् गन्धयासिरः तेनाधिमोचत येन देवासूराणा मोजां सुरेणे ध्वनम् तेनाश्रमा यच्छता यथा वृक्षम् विभूजा समन्तम् परिणस्वी समान्यसो यथा क्षो निहन्ति भूम्या एव नोयधाम् काव्यसोयधान्नापघासा यथे मेञ्छीनौर्याः एव मि देवलोयधावान् काव्यसौन्नापघासा वाञ्छमे तन्वौ वाञ्छाक्षौ ष्यन्तो मम त्वाम्ये यदायम् मरणम् घृतम् संवादयन्तु मे कृषयस्थ स्वाहात्रेभ्यो जायाधिपदये स्वाहा स्वर्थानम् कृतम् तदुवै पुत्रस्य वेदे स्वा भावे पुंसि भवति तत्रया मनुषिक्रणे तस्मै पुत्रस्य नैता प्रजापतिवी प्रजापद्विरस्थिनी श्रीयो पैत्यागतिलान्येन धर्मैर्विशम्बुरा यदभ्योदम् मन्यो अरो मनुश्रे सेवासमास्ते अस्तु सम्भृते नमो द्रे मलेभ्यो नमाजमलेभ्यः अरोमे वित्यानाम् मरास्तेभ्य मृत्युरे नमस्ते हरिमाताय परममाकाय जय नमः सुमस्ते मृत्योदय नमो इदं नमः नमस्ते सुधारेभ्यो नमस्ते हृेभ्यः नमस्ते मृत्यो मोरेभ्यो ब्राह्मणेभ्य इदं नमः अस्ति श्रं रं वरश्रं समास्थेदम्भृतायम् श्च निर्भराधम् बलाधि न क्षिणो मे पुष्कं यथा निर्बलाधेन प्रवादास्य मेरः उत्तमस्य उपस्थिरस्तु सोऽस्मदस्मानाभिधासयति स बन्धुश्च बन्धुश्च अस्माभिदासयति तेषां स वृक्षाणामिवाम्भो यातमुत्तमः यथा सौ ओषधीनामुत्तमो विनाङ्कदा तदा सा वृक्षाणामि वा अम्भो याजमुत्तमः ब्रह्मनामा च पिता नामा च माता सहेन हैनश्च महात्मा नारीर्य नयाभ्रश्च ब्रवणश्च